नारदपुराणम् उत्तरार्धम् अध्यायम् 68 एय्ट् अथ कामोदामोदायास्तु माहात्म्यम् ब्रूहि मे द्विजसत्तम यच्छ्रुत्वाहम् तव मुखात् प्रसन्ना स्यात् कृतार्थवद वसुरुवाच शृणु देवि प्रवक्ष्यामि कामोदाख्यानकं शुभं यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः कामोदाख्यं पुरं देवि गङ्गाधीरे व्यवस्थितं कामोदा यत्र वर्धन्ते सार्धं देवैर्हरिप्रियाः यदा सुरासुरैर्देवि क्षीरसागरः कामो दा तदोत्पन्ना कन्यारत्नचतुष्टये कन्यारमाख्या प्रथमा द्वितीया वारुणी स्मृदा कामोदाख्या तृतीया तु चतुर्धी तु तत्र कन्यात्रयं प्राप्तुं विष्णुना प्रभविष्णुना वारुणी त्वसुरैर्नीता विष्णुदेवाज्ञया सती ततः प्रभृति लक्ष्मीस्तु विष्णोर्वक्षस्थले स्थिता बभूव विष्णुपत्नी सा शुभे भविष्यकार्यम् विज्ञाय देवविष्णुसमाज्ञया कामोदाख्ये पुरे देवीम् कामोदाम् पूजयन्तिः सा तत्र वर्तते नित्यं विष्णुसंयोगकम्यया भार्या त्वं भावदप्राक् विष्णुध्यानपरायण स तत्र भावगम्यो वै विष्णुः सर्वगतो महान् अनयापि तया नित्यं वर्तते तत्समीपदः स देवैर्वासुरैर्देवी मुनिभिर्मानवैस्तथा अलक्ष्य देहो विश्वात्मा वर्तते ध्यानगोचरः ध्यानेनैव प्रपश्यन्ति देवाश्च मुनयो विभुं कामो दा महाभागा यदा कसदि हर्षेण दुःसमाविष्ट तदाश्रूणि पदन्ति च आनन्दाश्रूणि गङ्गायां पतितानि सुरेश्वरी कामोदाख्यानि पद्मानि तानि तत्र भवन्ति च पितानि च महामोदप्रदानि च यस्तु भाग्यवशान् लब्ध्वा तानि तैः पूजयेच्छिवम् ल्वांचिदा का दुख जानी तथा श्रोण कदाचि प्रपतंती तेभ्य पदमा विगम भीनुद्भव तैस्तु यूज शंकर लोकशंक स युज्येता केतैर्दुःखैः पूव पापैर्विमुच्यते गङ्गाद्वारादुपरिज दश यो जनके स्थितं कामोदं तत्र वर्षैकं यो जपे द्वादशाक्षरं वर्षान्ते चैत्रमासस्य द्वादश्यां विधिनन्दिनी वा स तौज श्रियं दृष्ट्वा स कस्ये धर्षद सदा तानि पद्मानि स लभेन् नान्यदाकोपिगर्भिजिद तत्र यस्नादिमनुजां विष्णुभक्तिपरायणः ध्यात्वा पुरं च कामोदं स भवेद्विष्णुवल्लभः देवदानां पितॄणां च वल्लभो नात्र संशयः यो द्वादशसमस्तत्र तिष्ठे जपपरायणः स लभे दर्शनं साक्षात् शुभानने यम यम चिन्तयदे कामं तत्र तीर्थे नरशुचिः स्नानमात्रेण लभदे तं तं मैहिगमङ्गने ये तद्धि परमं तीर्थं लभ्यं भाग्यवशाद्भवेद् दगे भद्रे दुर्गभं विकटस्थलं यत् ते सर्वमाख्यादं कामोदाख्यानगं शुभं यशृणोति नरोभक्त्या सोऽपि पापैः प्रमुच्यते इति श्रीबृसन्नदीयपुराणे बृषदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कामोदाख्यानं नामाष्टषष्टितमोऽध्यायः इति कामोदा माहात्म्यं समाप्तम् ओम्